श्रीहरये नमः अथ दशमोऽध्यायः सौनक उवाच हत्वा स्वरि कृतस्मृत आददायिनो युधिष्ठिरो धर्मभृताम्बरिष्ठः सहानुजै प्रयत्परुद्धभोजनकथं प्रवृत्त किमकारशीततः वंशं कुरोर्वं सतवाग्निर्हृतं संहरोयित्वा भवभावनो हरिः निषेवेयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमनाबभूवः निशमय भीष्मोक्तम् अथच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः सशास कामेन्द्र इवाजिदाश्रयः परिद्युपान्तं मनुजानुवर्तितः कामम्बवर्षपर्जन्यक् सर्वकामधुकामही सिशुक्षुष्मव्रजान्घा पयसोतस्वतिर्मुदा नद्यः समुद्रा गिरय वनस्पतिविरुधः पलन्त्योक्षधयः नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः अजातशत्रा वभवन् जन्तूनां राज्ञि हर्हि चेत् उषित्वा सुहृदां च विशोकाय श्वशुश्च प्रियकाम्ययाम् आमन्त्र्यशाप्यनुज्ञात परिष्जाभिवाद्यतम् आरूरोहरतं कैश्चित् परिक्ष्वक्थो विवाधितः सुभद्रा द्रौपदी कुन्ती विराटतनया तधान्तारी धृतराष्ट्ररच्चयुयुत्सुर्गौतमो यमो मृगोदरश्च धौम्यश्च स्त्रियो मत् ्यसूधादयः न सेहिरे वि मोह्यन्तोऽ विरहं सार्गधन्वनः सत्सङ्गान्मुक्तधुक्सङ्गो हातुं नोत्सहते भुतः कीर्त्यमानं यशो यस्य सहृत् आकर्ण्यरोचनं सहेरन्विरहं कथं दर्शनस्पर्श संलाभः सयनासभोजनैः सर्वे तनिमिशरैरक्षैस्तम् अनुधृतचेतसः वीक्षन्तस्नेहसम्भद्र विचेलुस्तत्र तत्र न्यरुन्धन्वुत्कलत् बाष्पम् औत्कण्ठ्याद् देवकीसुते निर्यात्यकारान्नो भद्रमिति स्याद्भान्तवस्त्रियः मृतङ्कसङ्गभैर्यश्च वीणापणवः धुन्दुर्यानकघण्टात्यानेतुर्धुन्दुवयस्तधा प्रसादशिकाररूढा गुरुनार्योधितृषयाम् ववृक्षु कुसुमय कृष्णं प्रेमव्रीढास्मिदेक्षणाः सिताथपत्रं जग्राहमुक्ताधाम विभूषितं रत्नदण्डं गुटाकेशप्रियप्रियतमस्यः उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते विकीर्यमाणः कुसुमैरेजे अश्रूयन्तासिषत्यास्तत्र तत्र द्विजेरिताः नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः अन्योन्यम् आसीत् सञ्जल्प उत्तमश्लोकचेतसां कौरवेन्द्रपुरस्तीर्णां सर्वश्रुतिमनोहरः सवय सवैकिष पुरातनो येक आसेष आत्म अग्रे गुणे जगधात्मन ईश्वरेत्मी क्षुक्तशक्तिशो सूज वीचोति स्वीव मयां प्रकृति शुश्रुक्षते अनामरूपात्मनिरूपनामनि विधित्समानो नु शशास्त्रकृत् स वा अयं यत्पदमत्र सूरयो जिदेन्द्रियानिर्जितमातरिश्वनः पश्यन्ति भक्त्युत्कलितामलात्मनानन्वेषन् सत्वं त्वम् परिमार्ष्टुम् अर्हते स कावयं वेदेषु गुह्येषु च गुह्यवादिभिः य एकैशो जगदात्मलीलया श्रुज्य वध्यति न तत्र सज्जते यथा ह्यधर्मेण तमोधियो नृप जीवन्ति तत्रैक्षहि सत्वद किल सत्यं नृतं दयां यशो भवायरूपाणि दधत् युगे युगे अहो अलं श्लाघ्यतमं यधोकुलम् अहो अलं पुण्यतमं मधोन्वनं यदेक्ष पुंसां स्वजन्मना शङ्क्रमणेन सञ्चते अहो बत स्वर्य सस्तिरस्करी कुशस्थली यदुनुग्रहेशितं स्मितावलोकं स्वपतिं यत्प्रजाः नूनं रतस्नान हुदातिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः पिबन्ति यासख्यधरामृतं मुहोर्व्रजस्त्रीकेन कृता स्वयं वरे प्रमद्य चैत्यप्रमुखान् कि प्रद्युन्नशांभां हृद्युन्नशाम्भाम्भुधादयोपरा याश्चाहृता भौमवदे सहस्रः येतः परं स्त्रीत्वम् अपास्तपेशलं निरस्त शौचं भत सा तु कुर्वते यासां गृहात् पुष्करलोचनः पतेर्न जात्ववैत्या हृदिभिर्हृति स्पृशन् एवं विधा गतन्तीनां स गिरः पुरयोक्षितां निरीक्षणेन अभिनन्दन् सस्मितेनै हरिहे अजातशत्रु पृथनां गोपितायमधुद्विषः परेभ्य शङ्कितस्नेहात्प्रायुङ्क्तचतुरङ्गिणे अध दूरगधान् चौरि कौरवान् विरहातुरान् सन्निवर्ध्य दृढं स्निग्धान् प्रायात् स्वनगरीं प्रियह्य गुरुजाङ्गलपाञ्झालान् सुरसेनान् सयामुनान् ब्रह्मा वर्तन् कुरुक्षेत्रं मस्यां सारस्वथानथा मरुधन्वम् अतिक्रम्य सौभिः आनर्तान् भार्गवो गा श्रान्तवाहो मनाक् विभुः तत्तत्र हस्तत्र्यैर्हरिः प्रत्युध्यदार्हणः सायं भेजदिशं पश्चाद्गभीष्टोघां गतस्तधा इति श्रीमद्भागवते महापुराणे प्रथमस्कन्ते नैमिषो श्रीकृष्णद्वारकागमनम् नाम दशमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराज के जय